अथ श्रीविष्णुषट्पदी अविनयमपनय विष्णोदमय मनश्शमय विषय मृगतृष्णां भूतदयां विस्तारय तारय संसार सागरतः दिव्यधुनीमकरन्दे परिमल परिभोगसच्चिदानन्दे श्रीपतिपदारविन्दे भवभयखेदच्छिदे वन्दे सत्यपि भेदापगमेनाथ तवाहं उद्धृतनगनगभिदनुजदनुजकुलामित्रमित्रशि दृष्टे दृष्टे भवति प्रभवति न भवति किं भवति तिरस्कारः मत्स्यादिभिरवतारैरवतारवतावता सदा वसुधाम् परमेश्वर परिपाल्यो भवता भवतापभीतोऽहं दामोदरगुणमन्दिरसुन्दरवदनारविन्द गोविन्द भवजलधिनाथमन्दर परमं दरमपनयत्त्वं मे भवजलधिमथनमन्दर परमं दरमपनयत्त्वं मे नारायणकरुणामय शरणं करवाणि तावकौ इति षट्पदी मदीये वदनसरोजे सदा वसतु नारायणकरुणामय शरणं करवाणि तावकौ चरणौ इति षट्पदी मदीये वदनसरोजे सदा वसतु वदनसरोजे सदा वसतु इति श्रीमच्छङ्कराचार्यविरचितं विष्णुषट्पदीस्तोत्रं सम्पूर्णम्